गणेशपुराणं क्रीडाखण्डम् अध्यायं 129 एण्ड् ट्वेण्टि नैन् क उवाच तदो दैत्यो मृत्युलोकं गदो गर्वादगर्जद कम्पितः पर्वता सर्वे वृक्षा निपतिता भुवि पक्षिः सिंहाश्वापदानि तदा तदो जिगाय नृपदीं सर्वान्वीरांश्च दानवः ब्रह्मादयो जिदायेन तेनायुध्यन् कथं नृपाः केचिद्विधा कृतास्तेन केचिन्नभसि बभ्रमुः केचिच्च सम्मुखे के युद्धं कृत्वा स्वर्गं गदा नृपाः के केजिच शरण या दास्कुपगता केजिभ्रष्टा जग्मुरभिम का नननम मुनीना माक्रमे मदी अकुषुद्धि बबंध सहसा चा तदा केचिन्मुनिगणास्त्यक्त्वा देहं दिवं गदाः केचिच्च मेरुकन्दर्यां न्यवसन्विगतज्वराः केचिच्च निहतास्तेन केचिच्च ताडिदा भृश्यं प्रसादाः सकलास्तेन विध्वस्ता देवता अपि एवं तु प्रलये जादे लोप्यन् क्रियाश्च वैदिकाः स्वाहा स्वधा देवागिरि देवागिरिगुहास्तास्ते मुनयो यक्षकिन्नराः नियमन्त्रयन्तकार्यार्थं तत्र प्राह बृहस्पतिः विद्यमानेभ्यो देवेभ्यस्तेभ्यः सर्वेभ्य एव च न भयं विद्यते तस्य तस्माद्देवं विनायकं प्रार्थयध्वं यदा विप्राः प्रादुर्भावं शिवालये गजानने दिनात्मा सकरिष्यति च साम्प्रतम् अनिष्यति बलाद् दैत्यं सिन्धूरं नात्र संशयः निराबाधं जगत्सर्वं भविष्यति तदा सुराः एवमुक्तास्तु जीवेन तं तु देवादयोखिला भक्रिया परमया युक्तास्तुष्टुपुस्तं विनायकं देवाऊजुः जगधकारणं योऽसौ रविनक्षत्रसम्भवः सिद्धसाध्यगणा सर्वे यद एव च सिन्धवः गन्धर्वा किन्नरायक्षा मनुष्यो रगराक्षसाः यदश्चराचरं विश्वं तं नमामि विनायकम् यदो ब्रह्मादयो देवा मुनयश्च महर्षयः यदो गुणास्त्रयो जादास्तं नमामि विनायकं यदो नानावताराश्च यश्च सर्वहृदि स्थितः यं स्तोदुं नैव शक्नोति शेषस्तं गणपं भजेत सिन्धूरो निर्मिदकेन विश्वसंहारपारपः तेनादिप्रापितं विश्वं त्वयि स्वामिनि जाग्रति अन्यं कं शरणं व्यामको नुपास्यदिनोऽखिलान् जह्येणं दुष्टबुद्धिं त्वमवतीर्य शिवालये परिदे पुस्ते नाना नुष्टान नपरा निराहारा यम परायण यहक स्थिता केजिजल मध्ये स्थिता परे ऊर्धुतया केजिके केजिच्च योगता के कर्तु स्वां देखान, के देखान, केेजे कर्तुस्वान्देन्ेच्च मस्तकान भीषा निरीक्ष्य तपसी गणराट्दा आविरासिकोटि सूर्य प्रलयानल सृष्ट् तेजोम रूपं जह्रशुस्ते सुरास्तदा, यश्चिन्तितः स येवाय माविर्भूतोऽकिलेश्वरः अपनेष्यति नो दुःखं नात्रकार्या विचारणा तदवूचे स भगवां स्तां सुरांश्चिन्तया अनिष्ये सिन्धुरं देवा मा चिन्तां दुःखप्रशमनं नामस्तोत्रं भक्ष्यादिमेष्यति अदो दुःखविनाशो वा जादोऽस्मान् मदनुग्रहात् एककालं द्विकालं वा वापि यः कदाचिन्न भवेदस्य दुःखं त्रिविधमन्वपि अहं तु साम्प्रतं देव अवतीर्य शिवालये नाम्ना गजाननयि दिख्यादसर्वार्थसाधकः भविष्यामि हनिष्यामि सिन्धूरादीन् महासुरान् करिष्यामि शिवादास्यं कौतुकानि प्रदर्शयन् क यवमुक्त्वा ततो देवांस्तत्रैवान्तरधीयत ततो कस्माद्धैमवती शिवानुग्रहतो दधौ गर्भं स ववृधेऽत्यन्तं दिने दिने यथा शशी ततस्तत्तेजसा तप्ता नानादोषकाङ्क्षिणी उवाच शङ्करं गौरी सन्दप्ता गर्भतेजसा अतिशीधस्थलं यत्र तत्र मां नय शङ्कर तत्रोऽसौ वृषभाजूढपृष्ठे तामुपवेश्यः भासयन्दीं महातेजः पुञ्जेन विदिशो दिशः वाद्यत्सु सर्ववाद्येषु ययौ नाना नानागणैः समायुक्तो बभ्रामकाननानि सह भ्रमदातेन हृष्टं हि पर्यलीकाननं मकद तत्र तदा। नाना नानापुष् पसमाकीर्णं नानाद्रुमफलान्विदम् सरोवापीयुधं सान्द्रतरुच्छायं मनोरमं यत्रोस्त्राणां न प्रवेशकैलासशिखरोपमं नन्दनादधिशोभं तद्वनं चैत्ररथादपि तद्वीक्ष्य गिरिजाप्रोच इच्छया सदृशं शिव वनं प्राप्तं महादेव क्रीडावोत्र चिरं विभो गणानामपि सर्वेषां प्रीतिस्तत्र ह्यभूस्तदा तदो गणामण्डपं ते चक्रुस्तत्प्रियकाम्यया नानावेडी गृहयुदं नानोपस्करसंयुतं तद ऊजे शिवो देवीं वसात्रत्वं गुणर्युदा यद्यत् ते प्रार्थितं तत् ते दास्यन्ति तदस्वयं जगामा शुद्ध्यानस्तो भूद्धिमालये सखीभिपार्वती तत्र चिक्रीडे सा यथा रुचि अरक्षं स्थां कोडिगणात्समन्तादावृतस्तदा तदाज्ञावशगाः सर्वे कन्दमूलफलाशिनः इति श्रीगणेशपुराणे क्रीडाखण्डे गौरी दोहदवर्णनं नामैको न विंशोत्तरशततमोऽध्यायः ओम्